ष्टनवतितमः सर्गः निवेश्य सेनाम् त्रिविभुः पद्भ्याम् पादवताम् वरः अभिगन्तुम् स्वकाकुत्स्थमियेष गुरुवर्तकम् निविष्टमात्रे भरतो भ्रातरम् वाक्यम् शत्रुघ्नमिदमब्रवीत् क्षिप्रम् वनमिदम् सौम्य नरसङ्घैः सहितैरे लुब्ध सहितरेमुर्हसी गुहो ज्ञाति सहस्रेण शरचापासी पान्वेश काकुत्स्थास्म पवयश्च गुरभतिष्या पदभ्या पिरीवृत स्वयं यम् द्रक्ष्या लक्ष्मण वा महाबल वैदेहीम् वा महाभागाम् न मे शान्तिर्भविष्यति यावन्न चन्द्रसङ्काशम् तद्रक्ष्यामि शुभाननम् भ्रातुः पद्मविशालाक्षम् न मे शान्तिर्भविष्यति सिद्धार्थः खलु रामस्य राजीवाक्षम् महाद्युति यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ शिरसा प्रग्रहीष्यामि नमे शान्तिर्भविष्यति यावन्नराज्ये राज्यार्हः पितृपैतामहे स्थितः अभिषिक्तो जलक्लिन्नो नमे शान्तिर्भविष्यति कृतकृत्या महाभागा वैदेही जनकात्मजा भर्तारम् सागरान्तायाः पृथिव्यायानुगच्छति सुशुभश्चित्रकूटोऽसौ गिरिराजसमो गिरिः यस्मिन्वसति काकुत्स्थः कुबेर इव नने कृतकार्यमिदम् व्यालनिषेवितम् यदध्यास्ते महाराजो रामः शस्त्रभृताम्बरः एवमुक्त्वा महाबाहुर्भरतः पुरुषर्षभः पद्भ्यामेव महातेजाः प्रविवेशमहद्वनम् पुष्पिताग्राणि मध्येन जगामवदताम् वरः स गिरेश्चित्रकूटस्य सालमारुह्य सत्वरम् रामाश्रमगतस्याग्नेर्दर्श ध्वजमुच्छ्रितम् तम् दृष्ट्वा भरतः श्रीमान् अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः स चित्रकूटे निशम्य रामाश्रमम् पुण्यजनोपपन्नम् गुहेन सार्धम् त्वरितो पुनर्निवेश्यैव च मोम् महात्मा इत्यादे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टनवतितमः